श्रीहरये नमः अथ सप्तविंशोऽध्यायः उद्धव क्रियायोगं समाचक्ष्व भवधाराधनं प्रभो यस्मा त्वां ये यथार्चन्ति सात्वथाः सात्वतर्षप ये दत्वतन्ति मुनयो मुहोर्निःश्रेयसंनृणां नारदो भगवान् व्यास आचार्यो आङ्गिरसस्सुतः निःश्रुतं ते मुखां भोजात् यदाह भगवान् अजहां पुत्रेभ्यो बृहुमुख्येभ्यो देवै भगवान् भवहा एतत्त्वयि सर्वभर्णानाम् आश्रमाणां च सम्मतं श्रेयामुत् तमं मन्ये स्त्रीशूद्राणां च मानध एतत्कमलपत्राक्षकर्मबन्धविमोचनं भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव संक्षिप्तं वर्णयिष्यामि यथावत् अनुपूर्वशः वैदिकस्तान्त्रिको मिश्र मेत्रि त्रयाणाम् ईप्सितेनैव विधिना मां समर्चयेत् यथा स्वनिगमेनोक्तं द्विजत्वं प्राभ्यपूरुषः यथा यजेत मां भक्त्या श्रद्धया तन्निभोतमे अर्चायां स्तण्डिलेग्नौ वा सूर्ये वाप्सु हृदि द्विजे द्रव्येण भक्तियुक्तोर्चेत् स्वगुरुं माममायया पूर्वं स्नानं प्रकुर्वीत दौतदन्तोऽङ्घशुद्धयेम् उपयैरपि च स्नानं मत्रैर्मृद्ग्रहणादिना सन्ध्योपास्त्यादिकर्माणि वेदे नाचोदितानि मे पूजां तैः कल्पयेत् सम्यक् सङ्कल्पकर्मपावनी शैली लौही लेप्यो लेख्या मनोमयी मणिमयी प्रतिम् अष्टविधा सलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् उद्वासावाहेन न स्त स्त्रियायाम् उद्धवार्चने अस्थिरायाम् विकल्पः स्यात् स्तण्डिले तु भवेद्वयम् स्नपनम् त्व द्रव्यै प्रसिद्धैर्मध्याघप्रतिमादिशु अमायिनः भक्तस्य च यथा लब्धैर्दिभावेन चैव हि स्नानालङ्करणं बुद्धव स्तण्डिले तत्त्वविन्यासो वह्वाजप्लुतं हविः सूर्ये चाभ्यर्हणं प्रेष्टं ललिले ललिलादिभिः श्रद्धया उपाघृतं पृष्टप्रेष्ठं भक्तेन मम वार्यपि भूर्यप्यभक्तोपहृतं न मे तोषाय मनसो दीपोन्नाद्यं शुचिः संवृतः सम्भार प्राक्तर्भैः कल्पितासनः आसीनः प्रागुदक्वार्चयत् धर्म धर्चायामतसम्मुखः कृतन्यासकृतन्यासां मदर्श्चां पाणिनामृजेत् कलशं प्रोक्षणीयं च या तवत् उपसाधयेत् ततर्भिर्देवयजनम् द्रव्याणि आत्मानमेव च प्रोक्षपात्राणि त्रीण्यद्भि तैस्तै द्रव्यैश्च साधयेत् पाद्यार्घ्या चमनीयार्थं त्रीणि पात्राणि दैशिकः हृदाश्रीष्णातसिखया गायत्र्या चाभिमन्त्रयेत् पिण्डे वाय्ग्निसंशुद्धे ध्याये नादान्ते सिद्धभावितान् तयात्मभूतया भिण्डे व्याप्ते सम्पूज्य आवाक्य आवाह्य अर्चादिषु स्थाप्य न्यस्ताङ्गम् मां प्रपूजयेत् उपाद्योपस्पर्शर्हणादीन् उपचारान् प्रकल्पयेत् धर्मादिभिश्च नवभिक् कल्पयित्वा सनं पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् उभाभ्यां वेद तत्राभ्यां मह्यं धूपयसिद्धये सुदर्शनं पाञ्चजन्यं गतासीषु धनुर्हलान् मुसलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव महाबलं बलं चैव कुमुदं कुमुदे दुर्गां विनायकं व्यासं विश्वक्षेणं गुरूसुरान् स्वेष्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभिः चन्दनो क्षीरकर्पूरकुङ्कुम अगुरुभासितैः सलिलैः स्नापयेन्मन्त्रैर्नित्यधा विभवे सति स्वर्णकर्माणुवाकेन महापुरुषविद्यया पौरुषेणापि सूक्तेन श्यामभिराजनादिभिः वस्त्रोपविधाभरणपत्रश्रग्न्तलेपनैः अलङ्कुर्वीतसप्रेम मद्भक्तो मां यथोचितं वाद्यमाचमनीयं च गन्धं सुमनसोक्षधान धूपदीपोपहार्याणि दत्यान्मे श्रद्धयार्चकः गुटपायसर्पिं शीषष्कुल्यापूपमोदकान् सन्ध्यावधति सूपांश्च नैवेद्यं सति कल्पयेत् अव्यङ्गोन्मर्दनादर्श अन्नाद्य गीतनृत्यादि पर्वणि श्रुरुतान्वहं विधिना विहिते कुण्डे मे कलाघर्तवेदिभिः अग्निमाधाय परितः समुहेत् पाणिनोदितं परिस्थिर्यात पर्युषेत् अन्वाधाय यथाविधि प्रोक्षण्यासाद्य द्रव्याणि प्रोक्षाग्नौ भावये तमां तप्तजाम्बूनतप्रख्यं शङ्खचक्रगदाम्बुजै लसच्चदुर्बुजं शान्तं पद्मकिञ्जल्कवाससं स्फुरत्किरीटकटकटिशूत्रवराङ्गदं श्रीवत्सवक्ष सम्प्राजत् कौस्तुभं वनमालिनं ध्यायन् अव्यर्च्यधारूणि हविषाभिगृहाणि च प्रासाजभागौवाधारौ धत्वा साजप्लुधं हविहे जुहूयान्मूलमन्त्रेण षोटसर्चावधानर्मादिभ्यो यथा न्यायम् मन्त्रैस्विष्टकृतम्भुतः अभ्यर्चातनमस्कृत्य पार्श्वदेभ्यो बलिं हरेत् मूलमन्त्रं जपेद् ब्रह्म स्मरन्नारायणात्मकम् दत्वा चमनमुच्चेशं विष्पक्षेनाय कल्पयेत् मुखवासं शुरभिमत्ताम्बूलाद्यम् अतार्हयेत् उभगायन् गृह्णन् रत्यन् कर्माण्यभिनयन् मम मत्कथा श्रावयन् श्रृण्वन् मुहूर्तं क्षणिको भवेत् स्तवैरुच्चावचैस्तोत्रैः पौराणैः प्राकृतैरपि स्तुत्वा प्रसीत भगवन इति वन्देत दण्डवत् शिरोमद्भतयो कृत्वा बाहुभ्यां च परस्परं प्रपन्नं पाहि मामी सभीतं मृत्युग्रहार्णवात् इति शेषां दत्तां शिरश् आधाय सादरम् उत्वाचयेच्छेत् उत्त्वाश्यं ज्योतिर्ज्योतिषिं अर्चादिषूयथा यत्र श्रद्धा मां तत्र चार्चयेत् सर्वभूतेष्वात् सर्वभूतेष्वात्मनि च सर्वात्माहमवस्थितः एवं क्रियायो गपथैः पुमान् वैदिकतान्त्रिकैः अर्चन् उभयधसिद्धिं मत्तो विन्दस्य भीप्सिताम् मदर्चां सम्प्रतष्टाभ्य मन्दिरं कारये दृढं पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् पूजादीनां प्रवाहार्थं महापर्वसु अथान्वखम् क्षेत्रापणपुरग्रामान् दत्वा मत्सार्ष्टितामियाद् प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयं पूजादिना ब्रह्मलोकं त्रिभिर्मत्सां मामेव नैरपेश्येन भक्तियोगेन विन्दति भक्तियोगं सलभते। एवं यः पूजयेतमं यः स्वतां परेर्धत्तां हरेतसुरविप्रयोः वृत्तिं सजायते विड् बुक् वर्षाणाम् अयुतायुतं कर्तुश्च सारथेर्हेतो अनुमोदितुरेव च कर्मणां भागिनप्रेत्य भूयो भूयसि तत्फलम् इति श्रीमद्भागवते महापुराणे एकादशस्तन्ते सप्तविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराज कि